प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता आध्रश्चिद्यमन्यमानस्तुरश्चिद्राजाचिद्यं भगं भक्षीत्याह प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता आध्रश्चिद्यमन्यमानस्तुरश्चिद्राजाचिद्यं भगं भक्षीत्याह प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता आध्रश्चिद्यमन्यमानस्तुरश्चिद्राजाचिद्यं भगं भक्षीत्याह